गायत्री अथ श्रीगायत्रीसहस्रनामस्तोत्रं देवीभागवतपुराणान्तर्गत नारद उवाच भगवन् सर्वधर्मज्ञ सर्वशास्त्रविशारद श्रुतिस्मृतिपुराणानां रहस्यं त्वन्मुखाच्छ्रुतं सर्वपापहरं देव येन विद्या प्रवर्तते केन वा ब्रह्मविज्ञानं किं नु वा मोक्षसाधनं ब्राह्मणानां गतिः केन केन वा मृत्युनाशनम् अहिकामुष्मिकफलं केन वा पद्मलोचन वक्तुम् अर्हस्य शेषेण सर्वे निखिलमादितः श्रीनारायण उवाच साधुसाधुमहाप्राज्ञ सम्यक्पृष्टं त्वया नघ शृणु वक्ष्यामि यत्नेन गायत्र्यष्टकसहस्रकम् नाम्नां शुभानां दिव्यानां सर्वपापविनाशनम् सृष्ट्यादौ यद्भगवता पूर्वे प्रोक्तं ब्रवीमि अष्टोत्तरसहस्रस्य ऋषिर्ब्रह्मा प्रकीर्तितः छन्दोऽनुष्टुप्तथा देवी गायत्रीं देवता स्मृता हलो बीजानि तस्यैव स्वराशक्तय अङ्गन्यासकरन्यासौ उच्यते मातृकाक्षरैः अथ ध्यानम् प्रवक्ष्यामि साधकानां हिताय वै ध्यानम् रक्तेतहिरण्यनीलधवलैर्युक्ता त्रिनेत्रोज्ज्वलाम् रक्तां रक्तनवस्रजं मणिगणैः युक्तां कुमारीम् इमां गायत्रीं कमलासनां करतलव्यानद्धकुण्डाम्बुजां पद्माक्षी च वरस्रजं च ददतीं अमृतार्णवमध्यस्थाप्यजिता चापराजिता अणिमादिगुणाधाराप्यर्कमण्डलसंस्थिता अजराजापराधा धर्मा अक्षसूत्रधराधरा अकारादिक्षकारान्ताप्यरिषड्वर्गभेदिनी अञ्जनाद्रिप्रतिकाशाप्यञ्जनाद्रिनिवासिनी अदितिश्चाजपा विद्याप्युरविन्दनाभीक्षणा अन्तर्बहिस्थिता विद्याध्वंसिनी चान्तरात्मिका अजा चाजमुखावासाप्युरविन्दनिभानना अर्धमात्रार्थदानज्ञाप्यरिमण्डलमर्दिनी असुरग्नेयमावास्याप्यलक्ष्मीज्ञनान्त्यचार्चिता आदिलक्ष्मीश्चादिशक्ति आकृतिश्चायतानना आदित्यपदवीचाराप्यादित्यपरिसेविता आचार्यावर्तनाचाराप्यादिमूर्तिनिवासिनी आग्नेयी चामरी चाद्या चाराध्या चासनस्थिता आधारनिलयाधारा चाकाशान्तनिवासिनी आद्याक्षरसमायुक्ता चान्तराकाशरूपिणी आदित्यमण्डलगता चान्तरध्वान्तनाशिनी इन्दिरा चेष्टदा चेष्टा चेन्दीवरनिभेक्षणा इरावती चेन्द्रपदा चेन्द्राणि चेन्दुरूपिणी इक्षुकोदण्डसंयुक्ता चेशुसन्धानकारिणी इन्द्रनीलसमाकार चेडा पिङ्गलरूपिणी इन्द्राक्षी चेश्वरी देवी चेह्त्रयविवर्जिता उमाचोषायुडुनिभा उर्वारुकफलानना उडुप्रभा चोडुमती युडुपायुडुमध्यगा ऊर्ध्वा चाप्यूर्ध्वकेशी चाप्यूर्ध्वाधोगतिभेदिनी ऊर्ध्वबाहुप्रिया चोर्मीमालावाग्रन्थदायिनी ऋतं च ऋषिऋतमती ऋषिदेव नमस्कृता ऋग्वेदारुणहर्त्री च ऋषिमण्डलचारिणी रुद्धिता रुजमार्गस्था, ऋजुमार्गस्था ऋजुधर्मा ऋतुप्रदा ऋग्वेदनिलया ऋज्वी लुप्तधर्मप्रवर्तिनी लूतारिवरसम्भूता लूतादिविषहारिणी एकाक्षरा चैकमात्रा चैका चैकैकनिष्ठिता ऐन्द्रि हैरावतारूढा चैहिकामुष्मिकप्रदाङ्कारा ह्यौषधी चोता चोतप्रोतनिवासिनी और्वाह्यौषधसम्पन्ना औपासनफलप्रदा और अण्डमध्यस्थिता देवी कात्यायनी कालरात्रिः कामाक्षी कामसुन्दरी कमला कामिनी कान्ता कामदा कालकञ्चिनी करिकुम्भस्तनभरा करवीरसुवासिनी कल्याणी कुण्डलवती कुरुक्षेत्रनिवासिनी गुरुविन्ददलाकारा कुण्डली कुमुदालया कालजुह्वा करालास्य कालिका कालरूपिणी कमनीयगुणा कान्तिः कलाधारा कुमुद्वती कौशिकी कमलाकारा कामचारप्रभञ्जिनी कौमारी करुणापाङ्गी ककुवन्ता करिप्रिया केसरी केशवनुता कदम्बकुसुमप्रिया कालिन्दी कालिका काञ्ची कलशोद्भवसंस्तुता काममाता क्रतुमती कामरूपा कृपावती कुमारी कुण्डनिलया किराती कीरवाहना कैकेयी कोकिलालापा केतकी कुसुमप्रिया कमण्डलुधराकाली कर्मनिर्मूलकारिणी कलहंसगतेः कक्षा कृतकौतुकमङ्गला कस्तूरी तिलकाकम्प्रा करीन्द्रगमनाकुः कर्पूरलेपना कृष्णा कपिलाकुहराश्रया कूटस्था कुदराकमरा कुक्षुसस्था किलविष्टपा खड्गखेटकराखर्वा खेचरी खगवाहना खट्वाङ्गधारिणी ख्याता खगराजोपरिस्थिता खलग्नी खण्डितचरा खण्डाख्यानप्रदायिनी खण्डेन्दुतिलका गङ्गा गणेशगुहपूजिता गायत्री गोमती गीता गान्धारी गानलोलुपा गौतमी गामिनी गाधा गन्धर्वाप्सरसेविता